ॐ नमो भगवते वासुदेवाय अथ श्री बृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे दृढधन्वोपाख्याने दृढधन्वनो मनःखेदो नाम त्रयोदशोऽध्यायः ऋषय ऊचुः सूतसूतमहाभाग वदनो वदतां वर दृढधन्वा कथं पुरुषोत्तम प्रापुरुषोत्तमसेवनात् सौराज्यं पुत्रपौत्रादीन् ललनां च पतिव्रतां कथं च भगवल्लोकम् अवापयोगि दुर्लभं। शृण्वतां ते मुखां भोजात कथासारं मुहुर्मुहुः अलं बुद्धिर्ननस्तात् यथा अतो विस्तरतो ब्रूहि इतिहासं पुरातनं, पुरातनम् अस्मद्भाग्यबलेनैव धात्रा सन्दर्शितो भवान् सुत उवाच सनातनमुनिर्विप्रां नारदाय पुरातनम् इतिहासमुवाचेद् मम स एव प्रोच्यते धुनां शृण्वन्तु मुनयः सर्वे चरित्रं पापनाशनम् यथाधीतं गुरुमुखाद् राज्ञो वै दृढधन्वनः षण् ब्रह्मन् प्रवक्ष्येऽहं भोपस्य दृढधन्वनः कथां पुरातनीं रम्यां स्वर्धुनीमिव पावनी आसीद है हयदेशस्य गोप्ता श्रीमान् महीपति चित्रधर्मेति विख्यातो धीमान् सत्यपराक्रमः तस्य पुत्रोऽतितेजस्वी दृढधन्वेत् विश्रुतः स सर्वगुणसम्पन्नः सत्यवाग्धार्मिकः शुचिः आकर्णान्तविशालाक्षः पृथुवक्षा महाभुजः अवर्धत महातेजा सार्धं गुणगणैरसौ अधीत्यसाङ्गान्निगमांश्चतुरश्चतुरो मुदा सकृन्निगतमात्रेण दक्षिणां गुरवे दत्त्वा सम्पूज्यविधिवच्छतं गुरुरनुज्ञया धीमान् पितुः पुरमजीगम जनयन्नयनानन्दं निजपत्तनवासिनां चित्रधर्मापितं पुत्रं दृष्ट्वा लेभे परां मुदं युवानं सर्वधर्मज्ञं प्रजानां पालने अतः किमत्रास्ति संसारे सारवर्जिति आराधयामि श्रीकृष्णं द्विभुजं मुरलीधरं प्रसन्नवदनं शान्तं भक्तानामभयप्रदं ध्रुवाम्बरीशर्याति ययाति प्रमुखा नृपाः शिबिश्चरन्ति देवश्च शशबिन्दुर्भगीरथः भीष्मश्च विदुरश्चैव दुष्यन्तो भरतोऽपि वा पृथुरुत्तानपादश्च प्रह्रादोथ विभीषणः एते चान्ये च राजानत्वा भोगाननेकषः अध्रुवेण ध्रुवं प्राप्त आराध्यपुरुषोत्तमम् अतो मयापि कर्तव्यम् अरण्ये हरिसेवनं छित्वा स्नेहमयं पाशं दारागारसुतादिषु इति निश्चित्य मनसा समर्थे दृढधन्वनि धुरं जगामाशु विरक्तः पुलः श्रत्र गत्वा तपस्तेऽपि श्रीकृष्णं मनसा स्मरन् निःस्पृहस्सर्वकामेभ्यो निराहारो निरन्तरं कियत्कालं तपस्तप्त्वा हरिर्धाम जगामस दृढधन्वापि शुश्राव स्वपितुर्वैष्णवीं हर्षशोकसमाविष्टो ह्यकरो दौर्ध्वदेकं पितृभक्त्या महीपालो विद्वज्जनव च स्थितः पुष्करावर्तके पुण्ये नगरेऽत्यन्तशोभिते राज्यं चकार भूपालो नीतिशास्त्रविशारदः तस्य शीलवती भार्या नाम्नाया गुणसुन्दरी विदर्भराजतनया रूपेणाप्रतिमा प्रतिमा पुत्रान् सा शुषुवे दिव्यांस दिव्यां चतुरश्चतुरान् शुभान् पुत्रीं चारुमतीं नामौ, सर्वलक्षणसंयुतां चित्रवाक्चित्रवाहश्च मणिमांश्चित्रकुण्डलः सर्वे ते मानिनः शूरान् विख्याता नामभिः पृथक् दृढधन्वा गुणैः शान्तो दान्तो दृढव्रतः रूपवान् गुणवान् शूरः श्रीमान् प्रकृतिसुन्दरः वेद वेदाङ्गविद्वाग्मी वेदवेदाङ्गविद्वाग्मी धनुर्विद्याविशारदः सुनिर्जितारिषड्वर्गः शत्रुसङ्घविदारणः क्षमया रोचते क्षमया पृथिवी तुल्यो गाम्भीर्ये सागरोपमः पितामहसमः साम्ये प्रसादे गिरिशोपमः एकपत्नीव्रतधरो रघुनाथ इवापरः अत्युग्रवीर्यः सद्धर्मीर्य इवापरः एकदा निशिसुप्तस्य चिन्तासीत्तस्य भूपते, अहो वैभवः केन पुण्येन महता भवत् न मया च तपस्तप्तं न दत्तं न हुतं क्वचित् कमिदं परिपृच्छामि मम भाग्यस्य कारणम् एवं चिन्तयतस्तस्य रजनीविरतिङ्गतां ब्राह्मे मुहूर्ते उत्थाय स्नानं कृत्वा यथाविधि उपस्थायार्कमुद्यन्तं सन्तर्प्य भगवत्कला दत्त्वा दानानि विप्रेभ्यो नमस्कृत्वाश्वमारुहत् ततोरण्यं जगामाशु मृगया सक्तमानसा मृगान् वराहान् शार्दूलान् जघान् गवयान् बहून् कश्चिन् मृगो हतोरण्ये बाणेन दृढधन्वना वनाद् यातु बाणमादाय सत्वरम् शोणितश्रुतिमार्गेण राजाप्यनुयौ मृगं मृगः कुत्रापि संलीनो राजा, कुत्रा राजा बभ्राम तद्वनं तृशाक्रान्तः सकासारं ददर्शसागरोपमं तत्र गत्वा शु पीत्वा सौ पानीयं तीरमागतः ततो ददर्शन्योधं घनच्छायं महातरुं तज्जटायां निबध्य तज्जटायां निबध्याश्वं निशशादमहीपतिः तत्रागमत्खगः कश्चित् कीरः परमशोभनः मानुषी मीरयन् वाणीम् अतुलां नृपमोहिनीं शुकः पपाठ सुश्लोकमेकमेव पुनः पुनः सम्बोध्य दृढ्वदृढधनवानम् एकाकिनमुपस्थितं विद्यमानातुलसुखम् आलोक्यातीव भूतले न चिन्तयसि तत् त्वं त्वं तत्कथं पारमेष्यसि वारं वारमिदं पद्यं पपाठनृपतेः पुरः श्रुत्वा तस्य वचो राजाहे मुमुदेपि च किमेतदुक्तवान् कीर एकं पद्यं पुनः पुनः नारिकेलमिवा गम्यं दुर्बोधं सारसंभृतं किं वा नायं भवेत् कृष्णद्वैपायनसुतः परः श्रीकृष्णसेवकं मूढं मग्नं संसारसागरीं विष्णुरातमिवोद्धर्तुं कृपया मां समागतः इति चिन्तयतस्तस्य तत्सेनासमुपागता कीरस्त्वदर्शनं प्राप्तु बोधयित्वा नराधिपं राजा स्वपुरमागत्य कीरवाक्यमनुस्मरन् वाच्यमानोऽपि नावोचत् विनिद्रस्त्यक्तभोजनः राज्ञीरः समागत्य राजानं पर्यपृच्छत् गुणसुन्दर्युवाच भो भो पुरुषशार्दूलदौर्मनस्य उत्तिष्ठोत्तिष्ठभूपाल भुङ्क्षोगान् भूपाल वद एवं स्त्रियानुनीतोऽपि न किञ्चिदवद नृप स्मरन् शुकवचस्तथ्यं दुर्गेयममरैरपि सापि बाला विनिश्वस्य भर्तृदुःखातिपीडिता न बुबोधनिजस्वामी चिन्ताकारणमुत्कटम् एवं चिन्ता निमग्नस्य राज्ञः कालः कियान् गतः सन्देहसागरोत्तारे हेतुं नैवावलोकयत् इति श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे दृढधन्वोपाख्याने दृढधन्वनो मनःखेदो नाम त्रयोदशोऽध्याय श्रीपुरुषोत्तमार्पणमस्तु